मुद्गलपुराण खंडम सिक्स विकटचरत अवेंटी एट नग्न भैरव प्रशंसा श्रीगणेशा नम दूचु ये देश तीर्थमुख्यु के के सिं सु तेषां समासदस्वामिंश्चरित्रं वदसौख्यदं भृशुण्ड्युवाच गच्छ्वं देवदेवेशा मयूरेशं मदाज्ञया तत्र सिद्धा भविष्यन्तः सर्वं ज्ञास्यथ कान्दे विस्तरतः सर्वं प्रोक्तं चैवनसंशयः समासदसमाख्यातं मया क्षेत्रचरित्रकं देवेशा नित्ययात्रां वद स्वामिंस्तथा क्षेत्रप्रदक्षिणां यात्रामन्यनराणां तु सर्वसिद्धिप्रदाम्वद पापयुक्तस्वभावेन मयूरे संस्थितोऽभवद चकारनगराद् बाह्यं कथं तं नग्नभैरवः संस्कारेण समायुक्तं गणपत्यं तथा प्रभुः कथं स मानयत्क्षेत्रे तद्वदस्व समासदः भृशुण्ड्युवाच बङ्गाले ब्राह्मण कश्चिद्गाणपत्यपरायणः विश्वामित्रकुले जादो नाम्ना शम्भुर्महायशाः हृदि तस्य समाश्रित्य नग्नो भैरवनायकः बुद्धिभेदम् चकारासौ तेन संव्यथितो द्विजः मयूरेशं तु द्रक्ष्यामि कदाहं देहधारकः क्षणभङ्गुरदेहस्थ किं करोमि त्वरायुधः ततः स पुत्रधारादिसंयुक्तो निःसृतो गृहाद भिक्षाशनश्च देवेशाद्रव्यहीनतया भवद द्वाभ्यां समागदसोपि मासाभ्यां लम्ख्यमार्गकं गणेशतीर्थगो विप्रो ननन्तहर्षयन् स्वकान् मयूरशं प्रपूज्यादौ यात्रां कृत्वा विधानविद क्षेत्रसंन्यासभावेना भजत् तं द्विरदाननम् अन्धे स्वानन्दगो भूत्वा भजते गणनायकं हृदि प्रभुः समाश्रित्य नरमेवं समानयत अध पापराये च तेषां वदामि देवपाहा क्षेत्रमं चिंत्र चरित्रम शृणु प्रिया मयूरे ब्राह्मण जनितो भवद। जन्मारभ्य महापापी पापनिष्ठ बभूव न वेदाध्ययन चक्रे परो भवद। यवने मध्यमांसादि सिषेवे स परस्त्रियं तस्य बुद्धिविभेदं स नग्नभैरवः परस्त्रियं समागृह्य विदर्भे प्रययौ कलः एवं नानाविधं देवो नग्नो भैरवनायकः सकारचाधिपत्यं स मयूरे दण्डधारकः अन्यच्च कथयिष्यामि चरित्रम् पापकारिणां मयूरे ये मदिम् कृत्वा न प्रापुस्तं मयूरकम् द्राविडे वैश्यजाधिस्था बभूवुः पापकारकाः विषादिना जनान् जघ्नोद्रव्ययुक्तान्निरन्तरं शम्भुश्च सोमकक्कुब्जकम्बलश्चैव मित्रकाः चत्वारो मध्यमांसादि बभक्षुर्नित्यमादराद परस्त्रीलालसा सर्वे शिष्णोदरपरायणाः न चक्रुः पुण्यलेश्यन्ते न स्वधर्मादिकं कदा तत्रैव नगरे कश्चिद्वैश्यश्यामलसंज्ञः द्रव्ययुक्तो महापापी ममार गदः mm. श्यालकस्तस्य तत्रस्त स्वधर्मस्थो शक आख्या पुण्यकर्म पाराण तेनाति सचयस्तु मसे महापाप वैश्याए दंडकारण्यु विक्रय कारणाद श्यामस्ति तदौ तेभ्यः शङ्करो विनयान्विदः जगादतान्महाभागो मयूरेस्ति प्रगृह्यतु त्यज्यदाम गणनाथस्य तीर्थे ब्रह्मसुखप्रदे तदेधि गृह्य तस्यास्थि समाजग्मुर्मयूरकं तत्र विघ्नं नग्नो भैरवनायकः चौरायिस्तेषाम् हृदम् सर्वं, गदस्तत्रास्ति सञ्जयः ते पुनः स्वगृहम् जग्मुक् किञ्चिद्द्रव्ययुधाफलाः मयूरेशस्य चक्रुर्न यात्राम् पापरायणाः निश्चितामपि देवेशा बुद्धिभेदबलाश्रयाद एवं महाबलसोऽपि भैरवो हृदि संस्थितः गणेशाज्ञावशो भूत्वा रक्षदिक्षत्रमुत्तमं येदद्भैरवनाथस्य चरितं यः शृणोति चेत् तस्य सर्वमयूरे शुभरूपं भविष्यदी देवेशा ऊजुः एतादृशो महाभागो नग्नो भैरवनायकः स्तोत्रं तस्य वदस्वामिन् संस्तुमस्तं निरन्तरम् बुद्धिभेदात्स नः क्रुद्ध करिष्यति विशेषतः क्षेत्र प्रवेशहीनांश्चेदधस्थं सेवयामहे भृशुण्ड्युवाच सर्वमायाविहीनाय सर्वमायाप्रचालक सर्वान्तर्यामिणे नित्यं नग्नभैरवते नमः मयूरेश परायैव मयूरपुरपालकधर्मिष्ठानाम् सुपालाय नग्नभैरवते नमः अधर्मनिरतांश्चैव बहिःकाराय देवप सदा स्वानन्दनिष्ठाय नग्नभैरवते नमः संस्कारयुक्तभावेन पापकर्मपरात्मनां मयूरे दण्डकर्त्रे वै नन भैरव नम महाबलधरा ब्रह्मदीनाचा अमेय शक्त नग्न भैरवते नम भुक्ति मुक्ति प्रदा चनध्यवर्धन गणेशा प्रपालय नग्न भैरव नम प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारकः शूलप्रोदमकाण्डाय नग्नभैरवते नमः अट्टहासेन देवेन्द्रांस्तथा सन्द्रस्य चासुरान् नृत्यस्य गणनाधाग्रे नग्नभैरवते नमः विश्वं तदं सर्वमिदं त्वयेष आद्यन्तमध्येषु महानुभाव संरक्ष देवेश मयूरसंस्थानस्मान् गुरुष्वत्वमनन्यभावान् शूरिन्नमस्ते किल कारणाय त्वद्भिधिभावेन जगत्प्रवृत्तिः व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यम् प्रकरोदि चात्मन् अधस्त्वदाधारमयं परेश सुरक्षते भक्तियुदं कुरुष्व गणेशक्षेत्रं त्वदधीनगन्तुं गणेशसंस्थं कुरुदे नमो वै इदं स्तोत्रं महेशाना नग्नभैरवकस्य च यः पढे शृणुयाद्वापि स सर्वं प्रलभेच्छुभम् धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितं लभे धनेन देवेशास्तु विध्वं नग्नभैरवं मयूरक्षेत्रत्यागश्च कदापि न भवेन्दृणाम् स्तोत्रेण स्तुपतां नित्यं न किञ्चिद्दुर्लभं भवेत् ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते नग्नभैरवप्रशंसानामाष्टा विंशतितमोऽध्यायः ॐ